्यायामोदलावकुण्डमती हेजो मयी नैष्टिः निदाङ्गविलोकी मन्दस्मितश्री वात्सल्यामृतवर्षिणी सुन्दरं कीर्तनामिश्वरी ॐ अमृतेश्वर्ये नमः ॐ अमृतेश्वर्ये नमः अमृतेश्वर्ये नमः गणानाम् त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणः कदानश्रह्म ॐ श्रीमहागणपतये नमः प्रणोदेवी सरस्वती वाजेभिर्वाजिनीव अग्ना विष्णु अण्ड् दै टुगेदर् चण्ड् दि सेकेण्ड् पाराग्राफ़् टु मोर्स् टुर्ै इण्डिविजुलि ओकेबडि रेडि वन् टु त्री ॐना विष्णु प्रजोषा वर्तन्तु गुणेर्वाचेला मह्य पिय देयधी वजने चेश्च मे मश्चिष्टो निश्च मे मह्यमानस्य नेश्यानस्याश्च पञ्चमी वाक्यश्च मे चक्षुष् मे जने लक्षश्च मे पञ्चम रोचश्च मे दहश्च मयुश्च मे जरा च मथा च शैष्ट्यञ्च मीचमेमश्चमेम्भश्चमेमाच मे महिमाचमेमाच मे प्रथिमाचमें पष्पाच मे द्राभुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगश्च मे धनं च मे वशश्च मे विशिश्च मे मे मोदश्च मे जागञ्च च मे च मे विस्तञ्च मे वेद्यं च मे भूतं च मे भविष्यति dugancane subhatañcha marudñcha maruddhischa me liptamcha me liptischa me madischa me madiyame let's do the second paragraph two more times together let's slow our okay ready <coughs> everybody ready केण्ड् ओके आम् रेडि ओके वन् टु त्री जैष्ठ्यञ्चम आधिपत्यञ्च मे अन्यष्टमे भश्चमे ये माचमे, प्रतिमाचमे वर्ष्मा च मे ब्राह्वाच मे प्रपञ्चमे प्रत्ये धा च मे यखश्च मे घनञ्च मे वशश्च मे विषिश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणं च मे भूतं च मे सुकृतं च मे वित्तञ्च मे वेद्यं च मे भूतं च me kubantam cha martham cha bhareddhya me kirtam cha me nistishya me adishya me kumaditya e zero okay for everybody yeah yeah yeah yes okay so who wants to try on their own now ऐ के ट्रै हरि ओके गोहेड् जैष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे हरिमा च मे प्रथिमा च मे भष्मा च मे द्राघुया च मे वृद्धञ्च मे वृत्तिश्च जगश्च मे धनं च मे वशश्च मे द्विषिश्च मे क्रीडा च मे विषिश्च द्विषिश्च मे द्विषिश्च मे वशश्च मे श्च मेरि जैष्ठञ्च मे जैष्ट्यं जैष्ठ जैष्ट्यञ्च मे आधिपत्यधिपत्यञ्च मे जैमैष्ठ्यञ्चम आधिपत्यञ्च मे ओके जैष्ठ्यञ्चम आधिपत्य श्चमे भामश्चमे मश्चमें भश्चमे जेमाच मे महिमा च मे वरिमा च मे प्रतिमा च मे ष्मा च मे च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वशश्च मे विशिश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणम् च वेद्यञ्च मे भूतञ्च मे भविष्यञ्च मे भविष्य भविष्यच्च मविष्यच्च मे सुगञ्च मे सुपथं च गुड रोड गुड वे सुपतञ्च मरुद्धिश्च मे सुपतञ्च मरुद्धं च मृद्धिश्च मेप्तञ्चमे क्लिप्तिश्च मे मतिश्च मे सुमतिश्च मे लोके वा या या आई नीड मोर प्रैक्टिस आई नीड डेफिनेटली ओके आई विल गो नेक्स्ट जयश्चम च महाधिपत्यञ्चमी मनुष्यस्य मे बामस्य मे मन्निश्चमे मन्निश्चमे मनुष्यमे बामस्यमे समे अम्बक्षने Okay, one more thing, thing, that that when when you you you you say say because because there there, is is a a a sandhi it it it better to together, otherwise are flowing with other people, it won't sound good, so should should be... Okay. That's you should take take take break break, if you have to take a break, okay? Don't take a, So the thing is that ब्रेक् not written like that, so यु okay. should... break where it's possible to break, when there is a joining of a Sandhi, like, don't break there, okay. you just say, Ba-ma-scha-me, ma-scha-me, m-bha-scha-me, then you can take a break if you want, Jema-chame, Mahima-chame, okay? Jema-chame, Vari-ma-chame, Tradi-ma-chame, Va-shma-chame, Dra-gul-ya-chame, Vrid-dam-chame, Vrid-d-chame, Sat-tyam-chame, Srad-da-chame, Jad-ach-chame, Dhan-am-chame, Vas-chame, ृषिश्च मे क्रीडा च मेदश्च मे वेद्यं च मे बोधं च मे भविष्यच्च मे सुगं च मे सुभं चमवृद्धं चमवृद्धिश्च मे क्लुप्तं ैष्ठधिपत्य मे मन्युश्च मे वामश्च मे भश्च मे भश्च मे जेमा च मे महिमा च मे वरिमाच मे प्रतिमा च मे वश्वा च मे द्राहुया च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वशश्च मे कृषिश्च मे लीला च मे मोधश्च मे जातञ्च मे भूतन्चमे, भविष्यत्चमे, सुगन्चमे, सुपतन्चमरद्धंचमरुद्धिष्चमे, क्लप्तन्चमे, क्लप्तिष्चमे, मतिष्चमे, सुमतिष्चमे. वोड़ो. वो वो वो वो तो तरी ने? I can go. Okay. Go ahead. चेष्टन्चमा <laughs> आठीपत्या... <laughs> <laughs> <laughs> यं च म जयष्ट्यं च चैष्ट्यं च महाधिपत्यं च मे मञ्ज्यस्य मे भामस्य मे मस्य मे भस्यमे चेमाचमे महिमाचमे वरिमाचमे प्रतिमाचमे वर्षाचमे द्रक्ष्याचमे वर्ष्माचमे वष्माचमे द्राखुयाचमे वृद्धञ्चमे वृद्धञ्चमे ृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगश्च मे धनं वशश्च मे तुषिश्च मे क्रीडाश्चे षिश्च मे षिश्च श्च मे क्लुप्तं च मे क्लुप्तिश्च मे ज्यैष्ठ्यञ्चम आधिपत्यञ्च मे मन्युश्च मे भामश्च मेमश्च मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च वर्ष्मा च मे द्राघुया च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वसश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतञ्च मे वित्तञ्च मे वेद्यञ्च मे Kluptan Chame, Kluptis Chame, Matis Chame, Sumatis Chame Go a little bit slower because then you will get the words exactly, you are getting the words correct except everybody else is a little bit slower, that's all. <laughs> <Yes>. <laughs> This is what happens if you can read the Devanagari pretty fast. Anybody else? Everybody is done, right? Let's uh, try and uh, learn the next two paragraphs. Shanchame mayaschame Shanchame mayaschame Shanchame mayaschame Priyanchame nukamaschame Priyanchame nukamaschame यश्च मे प्रियञ्च मेनुकामश्च मे कामश्च मे सौ मनसश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे श्रेयश्च मे भद्रञ्च मे श्रेयश्च मे पस्यश्च मे यशश्च मे यश्च मे प्रियंकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे पश्यश्च मे यशश्च मे ञ्च मे मयच्छ मे प्रियञ्चमेऽनुकामच्च मे कामच्च मे सौमनसञ्ज मे पञ्चमे श्रे मुद्य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 यशश्च मे भगश्च मे द्रविणञ्च द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे मे धृतिश्च मे विश्वं च मे महश्च मे क्षेमक्षेमश्च मे धृतिश्च मे विश्वं च मे महश्चमे संविच्च मे ज्ञात्रञ्च मे मे ज्ञात्र च मे सूच मे प्रसूश्च मे प्रसूच द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे त्रितिश्च मे विश्वञ्च मे महश्च मे संविच्छम् संविच्च मे ज्ञात्रञ्च मे सूच्य मे प्रसूश्च मे द्रविणद्रविणञ्च मे विश्वं चे विष्णुमश्च मे चैन्य मे ज्ञात्रं च मे विष मेष्टं मे बिगिनिङ्ग् टिल् नै आफ्टर् दे सञ्चमे मयश्चमे प्रियञ्च मे नुकामश्च मे कामश्च मेक्ष मे गौमं गच्छ मेक्ष मे भगच्छ मेन्द्रविष्मे मे च चमेयेत् प्रतिवर्षमे मे प्रसुष्टमे यन्त्य मे प्रियञ्चमेकामश्च मे कामश्च मे सौमनवश्च मेसञ्च मे श्रेयक्षमे च पर्यक्ष मे यशश्च मे चपति tranti me svachame cha vidchame who wants to try it on their own i can cry okay go ahead sachchame mayaschame trichame mayaschame sanchasam samind mangalakaram yes yeah sanchame mayaschame प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे भक्ता मे क्षेमश्च मे धृतिश्च मे यश्च मे प्रियं कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वसे मे द्रविणञ्च मे इन्ता च मे दत्ता च मेमा चे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ध्यात्र यश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे फगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे संविच्च मे ज्ञातञ्च मे प्रसूष्ट मेल् गो नेक्स्ट् मे यमश्च मे प्रियश्च मे मे मयश्च मे प्रियं च मे अनुकामश्च कामश्च मे सौमस्य मे द्रविणं च मे यन्ता च मे Mahas श्च मे Okay. okay. okay. शञ्च मे मयश्च मे प्रियञ्च मेनुकामश्च पञ्च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च चमे श्च मे विश्व संविच्चातञ्चमे प्रसूश्च मेरिस् योग्यू दे सोरि सोरि ऐ हव् टु डु दट् पाराग्राफ् सेपरे यस्य सूक्ष्ममेकसूक्षनेति नञ्चमे वैराष्ट्रमे तीरञ्चमे लयश्च मृदञ्चमे मृदञ्चमे तीरञ्चमे लयस्य मर्दञ्चमे मृदञ्चनेन तीरञ्चमे लयस्य मर्दञ्चमे मृदञ्चनेन लयश्च मर्दन्चमे मृदन्चमे यक्षमञ्चमे नामयच्चमे लयश्च मर्दन्चमे मृदन्चमे यक्षमञ्चमे नामयच्चमे लयश्च मर्दन्चमे मृदन्चमे यक्षमञ्चमे नामयच्चमे लयश्च मर्दन्चमे मृदन्चमे Do you have a question? Can you say it once more, the last thing you ah, said? Yeah, I'll do that, okay? Because there's a lot of sandhi, I cannot stop anywhere in between, okay. that's the problem. That's why I was thinking I'll, I'll, I'll break, but, uh, okay. Layascha okay. maritancha meh, mhritancha meh, yakmancha meh, namayaccha meh. Layakcha Marudancha Me, Murbancha Me, Yagishmancha Me, Naam, Mayakcha Me... Layakcha Marudancha Me, Murbancha Me, Yagishmancha Me, Naam, Mayakcha Me, Naam, Mayakcha Me... Is it tough for anybody then we can break it up? If it's getting really tough. Where to take it. I think we can break it up, Harry. Okay. लयश्च मृतं च मेरं च मृतञ्च मृतं अमृतञ्च मे अमृतञ्च मे अमृतञ्च अयक्ष्मेरं च मे लयश्च मर्तं च मे लयश्च मर्तम् च मे अतम् च मे यक्ष्मं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मञ्च मे नामयच्छ tanjame tanjame yakshmanchadine namayachame laye yattamardantame tanjame mrityamne namayachame can you see better this time yeah yes we can try one more time okay शीरञ्चमे लयश्च मर्तञ्चमे मृतमञ्चमे यक्षञ्चमे नामयच्चमे शीरञ्चमे लयश्च मर्तञ्चमे मृतमञ्चमे यक्षनिष्ठमे नामयच्चमे शीरञ्चमे लयञ्चमर्तञ्चमे मृतमञ्चमे यक्षनिष्ठमे नामयच्चमे इस् इस् बेटर् जीवातुश्च मे दीर्घायुत्त्वं च मे जीवातुश्चिवायुत्वं च मे श्च मे दीर्घायुत्वं च मेन मित्रं चिवातुश्चीर्घायु ीर्घायुत्वं च मे न मित्रं च मे भयं गो अप्ट् अदर्वाैस् मीनिङ्ग् विल् डिफरे दीर्घायुत्वं च मे गी मी लैक् दीर्घ आयुष् give me a long life anamitram chame it should give me lots of friends abhyam chame give me refuge give me uh, fearlessness if you say bayam chame it means give me, give me fear okay <laughs> so that my name is here me namitram chame bhayam chame so, me abhyam is actually the abhyam so that when you go up on it becomes the right meaning if you go low it means like give me fear so um दीर्घायु पञ्चमे न मित्रं च मे भे दीर्घायु पञ्चमे गो है ओके दोल्लि तिमेम्बर् िथिङ्ग् एल् बट् मे न मित्रं च मे भयं च मेल्स्ीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामय च मे युत्वम् च मेन मित्रम् चिवादुश्चित्र क्षीरं च मे लयच्च मरुदं च मे मृतं च मे यक्ष्मं च मे नामयच्चयुपञ्चमित्रं सुगञ्च मेशयनञ्च मे सुगञ्च मेशयनञ्च मे सूषाचमे सुदिनञ्च मे सुगञ्च मेशयनञ्च मे सूषाचमे सुदिनञ्च मे ीरम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मेनमित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे शूषा च मे सुधिनम् च मे ीयञ्च मे न युतञ्च मे निमृतञ्च मे यक्ष्मञ्च मे नियच्छ मे जीवाञ्च मे देवायुत्वञ्च मेन 씨 رانچ� من سرين ترانچ می لے اچ‌مار دانچ می مردان چ�p اون‌‌‌ سنًا جمّي‌‌ـènisf premature نـ presses زِي‌ Märنچ wrote د shutting- Wells outreach Mary Ann 2019 jam is the mare iN murdano São-ra- 사�issez Anybody want to try it on their own Sayarana Mi -E. मे लयश्च मरुतं च मे मृतं च मे यक्ष्मञ्च मेनामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मेन मित्रं च मे भयं च मे सुगं च मे तुश्च दीर्घायुत्वं च मे न मित्रं च मे भयं धीरं च मे लयश्च ऋतं च मे मृतं च मे यक्ष्मञ्च मे युत्वं च मे नमित्रं च मे सुगं चिरं च मेदं च मेदं च मे यक्षमं च मे नाम Say it together. Yakshman chame, nāma yakshame. Yashman chame, nāma yakshame, diva duschame, virgā yutcham chame, namikshram chame, bhyam chame, tugam chame, sayyam chame, susha chame, sudinam chame. If you want, you can also extend the, the previous one to get the, the running start for the next one. Sir. So, दीर्घायुत्वं च मेन मित्रं च मे भयं च मे सुदलिपि वोंट एक्सटेंड इट अ लिटिल बिट देन यू कैन गेट लिटिल बिट मोर रनिंग स्टार्ट इफ यू वांट सो ओके सो दैट फॉर सम पीपल इट हेल्प्स जीवातुश्च मे दीर्घायुत्वं च मेन मित्रं च मे भयं च मे सो इफ यू वांट टू डू दैट यू कैन डू ओके दैट मेक एंड विल लिटिल मोर एक्सटेंडेड सो ओके ऐ केट्रैरञ्च मे लयश्च मे लयश्च वृत्तञ्च मे वृत्तञ्च मे यक्ष्मञ्च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मेम् भयञ्च मे सुगञ्च मे शयनञ्च मे सुशाच मे sudinanchame don't read to break in between the may and namitra mm. so that thing you have to if you had break there you have to say dirgayuktam chame namitra uh. abhayanchame suganchame shayananchame all that stuff but since this uh. is uh, said in this uh, chandas you have to follow what is written okay so if you want to say normal mm. conversation doesn't matter okay But Vedic hmm. chanting, you you have to to to follow the Swara. That's the only uh, issue here. So, Correct, correct. Okay, that has to come yeah, like, uh, that. If you want to do normal लैक् बालकः गच्छति डस् इ अमृतं च मे यक्ष्मञ्च मे अनामयच्च मे all drastic things but when you do the vedic chanting the swara has to come that's all okay yeah. it does yeah. yeah it has to come together break anywhere if you break anywhere then it becomes a little different then you have to um, a <laughs> lot of people also have heard people saying may anamitram chame abhyam chame sugam chame because they don't want to say bhayam chame so they put the, a ah, there in between but if you just say abhyam chame it's okay but you have to break it such that it fits into the chanting mm -hmm. ऋतं च मे मृतं च मे यक्ष्मञ्च मे नामयश्च मे जीवातुश्च मे सूशाचमे सुदिनञ्चमे ओके शल्वी ड्रेई फ्रॉम द बिगिनिंग संचमे टिल दिस स्टार ग्राफ टुगेदर टू टाइम्स यस ओके ओके रेडी आई विल डू इट साइली स्लोअर 1 2 3 संचमे मयस्तगमे priyam chamendru kamastrame kamastrame nira pesauktas <laughs> chame vadram chachchadeyas chame astame gandesstame chame davinam chame santa siddharta chame kaimo bhame devik chame mahastame shambhikame मेसूश्च मे कृमे च वीरञ्ज मे वयश्चे मृतं मे यक्ष्वञ्च मे नामयच्च मे हिवाच मे हाविष मे न मे वञ्चमे शयनमे काच मे चित्रे one more time virtually but vart priyanchame <laughs> nukamastye kanachame somanadasyame च मे श्रेयश्च मे बल्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे चन्ता च मे अन्ता च मे क्षेमश्च मे दृहिश्च जने चतुर्गं चतुष्कमे शक्तिरञ्जने च जयश्च मे यक्ष्मञ्च मे नामयजमे दीर्घायेन मित्रं जने भयं जने यगं च वञ्चय न मे to be jameer should we do it one more time just for one more practice yeah okay 1 2 3 मे मयश्च मे प्रियं च मे रुमश्च मे कामश्च मे सोमनसश्च चनिका च मे चा च मे क्षेमक्षेमक्षि च मेष् विच्च मे चाचने प्रसूतमेश्चिरञ्चमे थिं वी केन् प्रक्टिस् दिस् देन् ट्रै नेक्स्ट् वीक्ै् yeah good yeah i sent you the recording that, right for the professional ones earlier yeah and i this is the same anuvaga that is there in the labunya service right? <laughs> yes exactly okay, yeah. same thing. this is the third anuvaga of chamakam the same thing as that's were that too mm -hmm. so listen standard so, uh, more times okay so this we have to get it right <laughs> So that area, seeranchame, that, that part, you cannot stop. You are not stopping there, right, for some time. You can stop there, but the thing is, when you say layaschama, you cannot say layaschama, ritham chame, mridam chame, akshman chame, that doesn't go well. So you have to, once you see seeranchame, layaschama, ritham chame, mridam chame, yakman chame, naam ayacchame, that line has to go uh, together for it to sound good. yeah need to take a big breath before season yeah yeah tuschme <laughs> prushchme then you're dig hiranchme layasth <laughs> mrdam then you have to go uh, one shot till the end of the line sorry say do you think the next line too evatuchme dirghayutvam chme navitram chme bhayam chme till that thing you have to go together sorry once we get this thing then we can do breath anywhere okay because people also go a little faster so you don't have to worry about the uh, breathing in between most of the people will say the whole paragraph in one one breath oh wow yeah yeah i mean once you get we can also do it faster but anyway we'll uh, do this slowly it's okay for us to break anywhere we want but you know break at the most logical point instead of breaking somewhere in the thing Any other questions? Okay, then let's do three rogaha samasthaha and then uh, uh, stop here. Hopefully everybody should be safe and uh, healthy and this uh, uh, corona time. Okay. Oh. Mm -hmm. ो भवन्तु लोकाः नमस्ताः सुखिनो भवन्तु लोकाः नमस्ताः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः ॐ श्रीक्यो नमः mari ipo